राधा भगिनी प्रार्थनया आरम्भं करोति वा राधा भगिनी श्रूयते वा आं भगिनि आं करोतु नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः सर्वोपनिषदो गावो दोप्ता गोपालनन्दनः पार्थो वत्सः सुतिर्भोक्ता दुग्धम् गीतामृतम् महत् शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिभिर्ध्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् दन्यवाद अद्यदिने अस्माकं विषयः अस्ति विंशतिपृष्ठक्रमाङ्क पुस्तकतः गीतासोपानं प्रथमभागः तस्य पृस् पृष्ठक्रमाङ्क विंशति तत्रका का परिदेवना इति पाठस्य नामः नाम तत्र अत्र तत्र कुत्र अन्यत्र सर्वत्र एकत्र विषयस्य विषये जय जे, जयन्ति भगिनी नमस्कारः लक्ष्मी भगिनी नमस्कारः नमस्कारः भगिनी भगिनी सारी क्षम्यतां किञ्चित् तत् प्रथमतः तु एतत् सर्वं वयं प्रारम्भिकस्तरे पठितवन्तः अत्र तत्र कुत्र अन्यत, सर्वत्र एकत्र हा किञ्चित् तस्य पुनरावर्तनं कुर्मः अनन्तरं पुस्तके यद् दत्तमस्ति तत् वयं पठिष्यामः अनन्तरं श्लोकं तस्मात् प्राक् कथा इति क्रमः अस्तु स्क्रीन् शेर् करोमि वारं तत् अत्र तत्र अन्यत्र सर्वत्र किमस्ति तत्र वाक्यानि सन्ति वाक्यानि दत्तानि सन्ति एकवारं पठामः अम्बिकापतिमहोदय पठति वा अस्ति वा अम्बिकापतिमहोदय तत्र स्यूतः अत्र अस्ति लेखनी अत्र अस्ति वायुः सर्वत्र अस्ति मन्त्री अन्यत्र अस्ति mm -hmm. चषकः तत्र अस्ति mm -hmm. गटी तत्र अस्ति देवः सर्वत्र अस्ति पर्वतः अन्यत्र अस्ति धन्यवादः अधुना वीणा भगिनी पठति वीणा भगिनी भगिनि अहं बहिर्गच्छ अस्मि अस्तु पठितुं न शक्नोति वा शृणोमि शृणोमि अस्तु अस्तु लक्ष्मी भगिनी तत् सा पठति वा चषकः अत्र अस्ति किन्तु जलं हा पा, पठतु चषकः अत्र अस्ति किन्तु जलम् अन्यत्र अस्ति जलं तत्र अस्ति किन्तु वायु सर्वत्र अस्ति तव गृह कुत्र कुत्र अस्ति मम गृह अन्यत्र अस्ति अत्र नास्ति वायुः सर्वत्र अस्ति वयम् एकत्र अत्र अस्ति वयम् एकत्र अत्र भवेत् तत्र वयम् एकत्र अत्र स्मः इति भवेत् वयं स्मः तत् अस्ति दोषः धन्यवाद भगिनी धन्यवादग्रिमे राधा राधा भगिनी पठति वा आं सौमिलः कुत्र अस्ति सौमिलः अत्र अस्ति जनकः तत्र अस्ति मन्दिरं सर्वत्र अस्ति अध्यापकः अन्यत्र अस्ति गायकाः एकत्र सन्ति पक्षिः अत्र अस्ति पर्वतः तत्र अस्ति वर्षा अन्यत्र अस्ति प्रदूषणः सर्वत्र अस्ति भारतीयाः एकत्र सन्ति अधुना अस्माभिः किं करणीयमस्ति सर्वे एकवारम् पुनः पुनः अत्र तत्र कुत्र अन्यत्र सर्वत्र एकत्र शब्दान् स्वीकृत्य वाक्यानि रचयन्ति हा तत्र तेन अभ्यासः भवति प्रथमं ताजयन्ति भगिनी भवती, भवती। वदति वा आं वदतु हा <coughs> अत्र घटी घटी अस्ति तत्र अत्र पुस्तकमस्ति तत्र घटी अस्ति अन्यत्र मम पुत्री अस्ति सर्वत्र वायुः अस्ति एकत्र वयं सर्वे सारि एकत्र सर्वे भक्ताः सन्ति तवदेव खलु बेण सर्वं वा सर्वम् उक्तवती भवती एकत्र अन्यत्र सर्वत्र कुत्र कुत्र इति प्रश्ने सति कथं भवति मम दूरवाणी कुत्र मम दूरवाणी कुत्र स्थापितवती इति अहं न जानामि उत्तमम् उत्तमं धन्यवादः उत्तम, अधुना शान, शान्मुङ्गा भगिनी भवती प्रयत्नं करोति वा स्वरचितानि वाक्यानि वदति वा जयन्ती भगिनी तां पृच्छति वा आं वडिबेणी मङ्गलदा सोलराङ्ग् वडुबेणी वक्तुं शक्यते वा वडुबेणी स्थलमुडिमा वाक्यद्वयं वाक्यद्वयं वदतु नडिबेणीम्यूट् ना कृतवती बेनि अस्तु अस्तु इदानीम् अगस्ट् महोदय नमो नमः भवान् आगतवान् ah? so, बहुकालानन्तरं भवान् आगतवान् इति ah. mm. वदामि व्यस्तः व्यस्तः व्यस्तः अस्ति वा कार्ये व्यस्तः अस्ति वा आं ah, भगिनि का, का, कार्यं प्रचलति अस्तु ध्वनिमुद्रणं श्रुतवान् वा क्षम्यतां ध्वनि ध्वनिमुद्रणं श्रुतवान् वा भवान् ध्वनिमुद्रणं श्रुतवान् ध्वनिमुद्रणं रेकार्डिङ्ग् इति श्रुतवान् um i i heard one members but, but the last class i i did i, I can't can't see yeah this time is here abhave aham na shutwan aham mama karyakshetre nimagnah atah samayasya abhave na shutwan agri mein saptaye श्रवणं करिष्यामि एवं सम्यक् वा इदानीं भवान् वदतु अत्र तत्र कुत्र अन्यत्र सर्वत्र एकत्र स्वरचितानि वाक्यानि वाक्यद्वयं वाक्यत्रयं वदतु आकाशः स सर्वत्र अस्ति उत्तमम् उत्तमम् इतोपि एकम् छात्रः छात्रः अस्ति उत्तमं कुत्र प्रश्नं पृच्छतु कुत्र भवान् भवान् भवान् कुत्र गच्छति भवान् कुत्र गच्छति इति भवान् कुत्र गच्छति नो चेत् भवान् कुत्र निवसति कुत्र इत्युक्ते तत्र प्लेस् इति दर्शयति खलु स्थानं दर्शयति कुत्र अस्ति वानराः कुत्र सन्ति फलानि कुत्र सन्ति वृक्षः कुत्र अस्ति इति प्रश्नः स्पष्टं वा स्पष्टमस्ति इदानीम् धन्यवादः अस्तु इदानीम् अस्माकं पुस्तके किं दत्तमस्ति एतत् वयं पश्यामः पुस्तक अस्माकं पुस्तकं गीतासोपानं तत्र पृष्ठक्रमाङ्कः अस्ति विंशति विंशतिपृष्ठक्रमाङ्कः दृश्यते स्क्रीन् दृश्यते आं दृश्यते भगिनी तत्सर्वं वयं कृतवन्तः अधुना पृष्ठक्रमाङ्क विंशति ततः आरभ्य अत्र अद्य दिनस्य अस्माकम् एकः एव अंशः अत्र तत्र कुत्र सर्वत्र अन्यत् स्वरचितानि वाक्यानि अपि पश्यन्तु अत्र का परिदेवना तत्र का परिदेवना द्वितीये अध्याये एषः श्लोकः अस्ति श्लोकस्य अपि पठनम् अनन्तरं वयं कुर्मः इदानीं पुस्तकत पुस्तकं यत् सूचयति तत् पश्याम तत्र का परिदेवना अस्तु अधुना अम्बिकापतिमहोदय आरम्भं करोति वा पठति वा अष्टमपाठः तत्र का परिदेवना उच्चैः पठत च अत्र तत्र कुत्र अन्यत्र सर्वत्र एकत्र अर्जुनः कुत्र अस्ति भीष्मः कुत्र अस्ति अर्जुनः अत्र अस्ति भीष्मः तत्र अस्ति भगवान् सर्वत्र अस्ति कोष्टकंष्ट अनन्तरं पश्यामि हा इदानीं तावत्पर्यन्तं पर्याप्तं धन्यवादः धन्यवादः हा अधुना अत्र राधाभगिनी स्क्रीन् दृश्यते अत्र तत्र उपरितने तत्र अर्जुनः कुत्र अस्ति भीष्मः कुत्र अस्ति अर्जुनः अत्र अस्ति भीष्मः अत्र तत्र अस्ति तत्सर्वं भगवान् शब्दः इतोपि तत्र चित्रे इतोपि एकं दृश्यं दृश्यते वयं द्रष्टुं शक्नुमः तस्य विषये किञ्चित् स्वशब्दैः वदति वा भीष्मपितामहा उत्तमं वदतु इदानीं वर्णनं करोतु भीष्मपितामहः बाणा सम्यक् शय्या वा शरशय्याम् इति शरशय्यां लैङ्ग् डौन् इति भवती किं वक्तुमिच्छति लैङ्ग् डौन् लैङ्ग् डौन् तत्र तत्र सप्तमी आगच्छति खलु शय्ये न आकारान्तस्त्रीलिङ्गि शय्या इति आकारमाला मालाशब्दस्य सप्तमी सप्तम्यन्तरूपं किं ओके आँगा, आँगा, स्थितमस्ति योग्यं इतोपि इतोपि अर्जुनः तस्य चाप अस्ति Uh, uh, uh, एकवारं तद् भीष्मपितामहस्य विषये वाक्यद्वयं वाक्यत्रयं वदतु भगिनि ओके okay. uh, भीष्मपितामहः कौरवपक्षे uh, uh, महाभारतयुद्धः कृतवान् uh, uh -huh. uh -huh. uh, ते तस्य ते uh, महा कौरवस्य जनरल् हेड् हेड् आफ् इट् सहो रूपेण सेनापतिरूपेण उत्तमं भगिनि आसीत् इदानीं सः तत्र मृतः वा, वा अत्र दृश्यते सः मृतः अस्ति वा अत्र न मृतः नास्ति तस्य एकवरम् अस्ति ृतः जातः वरं प्राप्तवान् आसीत् सः प्रतीक्षां करोमि भवती कालस्य प्रतीक्षा जनवरी सत्यम् उत्तरायणस्य उत्तरायणस्य प्रतीक्षा करोति सः उत्तरायणस्य प्रतीक्षां करोति उत्तरायणम् आरम्भे सति प्राणस्य त्यजनं करिष्यति प्राणत्यागं करोति करिष्यति अतः सः प्रतीक्षां करोति नामस्यते उत्तम भगनी सह विष्णुसहस्रनाम तन सह उतर महिमा अच्छी त्र इकमी सह क्य वृद्ध अं भ शराः दृश्यन्ते खलु सः बाणैः रुद्धः इति तत्र कस्य कस्य शराः जानामि अर्जुनस्य शराः अर्जुनस्य शराः सत्यम् अर्जुन अर्जुन एव शरैः तं विष्मपितामहं तत्र आ, सह एव तत्र मारितवान् इति न वक्तुं शक्नुमः यतोहि तत् परंतु तत्र सह सः तत्र गलितगात्ररूपेण तत्र सह अत्र mm. शरशय्यां mm. शर, शर सया, शय्यायाम् उपरि भूमौ mm. सः पतितः इति अर्जुनस्य mm. mm. mm. बाणैः एव अस्तु no. योग्यम् उत्तमम् उत्तमम् उत्तमम् अस्तु अस्तु अग्रिमे पठामः लक्ष्मी भगिनी भवती पठति वा कोष्टकं दृष्ट्वा कः कुत्र अस्ति इति वदत आम् भगिनि कोष्टकं दृष्ट्वा कः कुत्र अस्ति इति वदत पाण्डवक्ष पा पाण्डव पक्षः गौरवपक्षः श्रीमन्युः युयुत्सु घटोद्गजः त्रुबदः विराडः गौरवपक्षः विभीष् सारि भीष्मः भीष्मः तः जयत्रजः जयत्रय जयत्रयद्रथः जयत्रजः दृष्टको दृष्टकोतुः दृष्टकेतुः दृष्टकेतुः इदानीं वर्गीकरणं कथं दृश्यते इति वर्गीकरणं करणीयमस्ति अस्माभिः पाण्डवपक्षः कौरवपक्षः अभिमन्युः कुत्र अस्ति योत्सुः कुत्र अस्ति तत् वदतु अभिमन्युः अभिमन्युः अत्र अस्ति अत्र अत्र पश्यन्तु अत्र अत्र तत्र अभिमन्युः पाण्डवपक्ष सूचि सूचयिष्यति चेत् अत्र कौरवपक्षस्य सूचना कथं तत्र अभिमन्युः अत्र अस्ति अभिमन्युः अत्र अस्ति अत्र अस्ति तत्र अस्ति युत्सु तत्र कौरवपक्षे अस्ति घटोत्कचः कुत्र अस्ति घटोत्कचः इत्युक्ते कः जानाति वा अहं न जानामि अहं न जानामि अन कॉपी सहाय कीम घटोत्कम सुस्ट्रक्ष अस्थ अस्त घटोत्क अस्थ अग्रे ध्रुव जिपदन् ये पाञ्चालि अपा द्रौपदुरुपद तत्र अस्ति द्रुपदः कुत्र पाण्डव पाण्डव पाण्डव द्रुपदः इत्युक्ते द्रौपद्याः पिता जनकः द्रुपदः अत्र अस्ति इति वदतु द्रुपदः अत्र अस्ति अत्र अस्ति विराडि विराडः यदि विराटः विराटः इत्युक्ते कः इबोडप्पा ऐ मीन् अभिमन्योड मामनार् अभिमन्योः अभिमन्योः पत्नी उत्तरा उत्तरायाः पिता विराटः विराटः तत्र अस्ति कौरवो अत्र अस्ति अत्र अत्र अत्र दूरवरम् अत्र अस्ति पाण्डव अस्ति अनन्तरं भीष्म भीष्म भीष्म भीष्मर्ौरवर्धनं जयन्ति अनन्तरं कृपः कृप कृ आचार्युलगुरु कृपाचार्यः इति कौरवपक्षी सः अपि कौरवपक्षी आसीत् अनन्तरं भगदत्तः आन्सर् मात्र अङ्ग्लु अत्र अस्ति तत्र भगदत्तः इति नरकासुरपुत्रः नर्कासुर इति असुरस्य पुत्रः भगदत्तः नर्कासुरः सर्वे जानन्ति खलु नर्कासुर जानन्ति वा नर्कासुरपुत्रभगदत्त अधुना पश्यन्तु नर्कासुरस्य वधः कः कृतवान् आसीत् कृष्णः कृतवन्तः सत्यम् अतः भगदत्तः कौरवपक्षे भगदत्तः तत्र अस्ति कौरवपक्षे अस्ति अधुना जयद्रथः जयद्रथः तत्र अस्ति तत्र अस्ति कौरवपक्षे यतो हि जयद्रथ इत्युक्ते कौरवाणाम् एका भगिनी दुश्शीला तस्याः पति जयद्रथः सः तत्र दुश्शिलायाः पति जयद्रथः दृष्टकेतु दृष्टकेतु तत्र अस्ति दृष्टकेतु काशीराजस्य वीर्यमान् दृष्टकेतु काशी इति कौरवपक्षे अस्ति क्षमतां पाण्डवपक्षे अस्ति दृष्टके हा पाण्डवपक्षे सत्यं खलु जयन्ति भगिनी दृष्टकेतु दृष्टकेतु तत्र श्लोके भगिनि श्लोके अस्ति खलु दृष्टिराज काशीराजस्य काशीराजस्य वीर्यवान् इत्युक्ते तत्र काशीराज इत्युक्ते सर्वे कौरवस्य पक्षे वा पाण्डवस्य पक्षे कौरवस्य पक्षे खलु बेनि काशीराज भगवान् कृतवान् खलु काशीराजदेशे गत्वा वदं कृतवान् हा हा हा काशीराजस्य वीर्यवान् अस्तु अस्तु इत्युक्ते तत्र दृष्टके तु विराटश्च काशीराजस्य परन्तु विराट् तु, तु अत्र अस्ति खलु hmm. किञ्चित् दृष्टके तु कस्य कस्य पिता वा कस्य पुत्र mm. कोऽपि जानाति वा विस्मृतवती बेनि महाभार्ये अस्ति विस्मृतवती किन्तु तदहमपि इदानीं न न स्मरामि बहूनि नामानि भवन्ति खलु अतः केरेक्टर् नामानि भगिनि अहं अद्य गूगल् सर्च् कृतवती आर्मि जनर इन् द आर्मि आफ़् पाण्डवा इन् द कुरुक्षेत्र आर्मि आफ़् द परन्तु अहमपि तत् शिशुपालस्य पुत्रः इति अहमपि तद् दृष्टवती चेदिदेशनृपः सः शिशुपालपुत्र परन्तु सः पाण्डव पाण्डवपक्षे आसीत् इति तत्र शिशुपाल इति शिशुपालस्य वधः तत्र शिशुपालस्य पुत्रः वा जयत्रथस्य पुत्रः वा भगिनी शिशु दृष्टकेतु शिशु पाल, शिशु, इति शिशुपालस्य पुत्रिपाल शिशु शिशु पुत्र एव परन्तु यतो हि स्वशिशुपालपुत्र सः पाण्डवपक्षे आसीदिति इति दत्तमस्ति दृष्टु दृष्टकेतु चेकितान् काशीराजश्च जीवान् सर्वे तत्र पाण्डवङ्गवः <laughs> तत्र सर्वे पाण्डवपक्षिणः खलु सर्वे तत्र अस्तु अस्तु हा धन्यवादः लक्ष्मी भगिनी धन्यवादः अधुना भगिनी एतानि वाक्यानि एतानि वाक्यानि उच्चैः ै पठत कुरुक्षेत्ररणरङ्गे पाण्डवाः एकत्र तिष्ठन्ति गौरव कौरवाः एकत्र तिष्ठन्ति महाभारतयुद्धसमये बलरामः अन्यत्र भवति अभ्यासः भगिनि बलरामः अन्यत्र भवति विषयस्य कथा वदतु आम् बलरामः बलरामः तीर्थाटनं गच्छ गतवन्तः कौरवपक्षे वा न तु पाण्डवपक्षे वा न तिष्ठामि इति उक्तवान् अतः सः महाभारतयुद्धे युद्धस्य भागं स्वीकर्तुं न इच्छति अतः सः तीर्थाटनं क्षेत्राटनं गत सम्यक् तत्र बलरामस्य कृते तीर्थाटनं केन सूचितं बेणी बलरामस्य कृते तीर्थाटनं तीर्थमनीयं तत् केन सूचितमस्ति एतत् सर्वं तत्र, तत्र एव करोतु तीर्थाटनं करोतु अत्र मातिष्ठतु इति केन सूचितम् कृष्णेन वा भगवता किम ऐ मीन् बलरामः बलरामस्य शिष्यः दुर्योधनः अस्ति सः सः भागं स्वीकर्तुं शक्यते चेत् बलरामस्य पक्षं करोति इति कारणेन भगवान् सूक्ष्मतया उक्तवान् सत्यं सत्यं षट् प्रतिशत् अत्र कृष्णनीति एषा तु कृष्णनीति नोचे किुन विषे बलराम से मनसी विशेषतया ममता आसी यदा बलराम य बलराम अगछति कौरवपक्षे बलराम आगछति चेत कि अगर पक्षे भगवान स्वयं साखिपेण पुतः यदि बलराम आगछति ज्येष्ठबंधुव आगछति चेत अतः उत्तमम् उत्तमम् येन प्रकारेण वयं वक्तुं शक्नुमः तेन अभ्यासः जायते उत्तमं धन्यवादः हा अग्रिमे षण्मुङ्गभगिनी तत् पठति वा अभ्यासः अडियुबेणी किं वा अडियुबेणी अडिवका सोलमडीमा लेना कत्वा आकारः सल्वाङ्गल कत्वा किं वा न श्रूयते वा तत्र पठितुं शक्नोति वा इदानीं हा हा भगिनि इदानीं शक्नोमि अभ्यासः रिक्तस्थानानि पूरयत स्यूतः अत्र अस्ति लेखनी अत्र अस्ति चषकः तत्र अस्ति वायुः सर्वत्र अस्ति चित्रे न दृश्यते पर्वतः एव अस्तु तदेव अग्रिमे षष्ठिविभक्तिविषये अस्ति षष्टिविभक्ति अनन्तरं कुर्मः अद्यदिने इदानीं तत्र का परिदेवना तत् श्लोकं यत् अस्ति द्वितीय अध्याये किञ्चित् तस्य विषये अनन्तरं कथा तत्र का परिदेवना इति श्लोकः पश्यामि दृश्यते भगिनी आगस्ट् अगस्ट् महोदये भवान् पठति वा अव्यक्तादीनि भूतानि पठति वा अस्तु अव्यक्तादीनि दीनि दीनि भूतानि व्यक्तमध्यानि भारत व्यक्तनि धनान्येव तत्र का परिदेवना अतीव hmm. महत्त्वपूर्णः श्लोकः अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनिधनान्येव तत्र, तत्र का परिदेवना इति प्रश्न तत्र का परिदेवना अव्यक्त आदीनि भूतानि हा अत्र अर्थस्य विषये पश्यन्तु भूतानि भूतानि इत्युक्ते भूत भू भव इति धातुपाठे धातुक्रमाङ्क प्रथम एक धा खलु भू हाँ भूभव तब निष्प्य लट्लकार प्रथम पुरुष एक भूतह, भूत भूत भूता क्रििएटेड भूता भूत अव्यक्तादी भूता व्यक्तमद्या भूता अव्यक्तना भूता अव्यक्त एव निधना द्वितीय पंक्ति अव्य अव्यक्त निधनाधि तृश्य भूता शब्द विशेषपदम क्य क्य विशेषपद अव्यक्तादी शब्द सेशे्यपद व्यक्तमद्या इतस्य अपि एक शब्द अभी विशेषपद अव्यक्तना शब्द से अशेषपूता भारत भारत कूपे अर्जुन अर्जुन अर्जुन अर्जुन हे भारत हे अर्जुन अव्यक्तादी भूता व्यक्तमद्या भूता अव्यक्तना भूता तत्र का परिदेवना इति अधुना अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनानि कः अर्थः कोऽपि वक्तुमिच्छति वा आं वेनि एतानि भूतानि अद्य यः दृश्यते ताः पूर्वं न अदृ अदृ अदृष्टं भवति इदानीमेव दृश्यति मध्ये मे मध्ये एव दृश्यति इतः परमपि न दृश्यते तत् दट् uh, मीन्स् uh, जीवात्मा uh, uh, uh, शरीररूपेण इदानीं uh, uh, शरीरं स्वीकृतवान् अतः दृश्यति इतः mm -hmm. पूर्वं न दृश्यते इतः परमपि न दृश्यते मध्ये एव mm -hmm. दृश्यति तत्र इति ऐ uh, mm -hmm. uh, मीन् uh, भगवान् उक्तवान् अर्जुना परिदेवनः इति अस्ति तत्र परि इति उपसर्गपूर्वक दिवधातु इत्युक्ते वि केन् से लेमेण्टिङ्ग् इति नो कास् आफ् लेमेण्टिङ्ग् परिदेवना दिवधातु तस्य ल्युट् प्रत्ययान्तरूपं परिदैवनम् इति न पुसकलिङ्गि परिदेवनः लिङ्गि hmm. परिदेवन hmm. स्त्रीलिङ्गि तत्र का hmm. इत्युक्ते स्त्रीलिङ्गि का परिदेवनाट् इस् दि कास् आफ्टिङ्ग् किमर्थम् अव्यक्त आदिनि तत्र आङ्ग्लभाषायां तत्र अन्म्यानिफेस्ट् इति वक्तुं शक्नुमः अव्यक्तम् अदर्शनम् अनुपलब्धि आदि आदौ तेषाम् अव्यक्तम् अन्म्यानिफेस्ट् देट् इस् अदर्शनम् अस्ति हा येषां भूतानाम् आदौ अव्यक्तम् इति व्यक्तमध्यानि भूतानि व्यक्तमध्यानि इत्युक्ते उत्पत्तेः अनन्तरम् उत्पत्तेः अनन्तरं परन्तु मरणात् पूर्वम् अस्माकं जीवनं यदा uh, जयन्तीभगिनी उक्तवती अस्माकं यज्जीवनमस्ति तत्र किं भवति व्यक्तमध्यानि अस्माकम् उत्पत्तेः अनन्तरम् मरणात् पूर्वं प्राक् मरणात् तत् अस्माकं जीवनं तत्र मध्याह्न मध्यान, तत्र व्यक्त व्यक्तमध्यानि पुनः किं भवति अव्यक्तनिधनानि पुनः अव्यक्तम् पुनः अदर्शनम् पुनः अव्यक्तनिधनानि निधनं मरणं येषां तानि अधुना जीवने हा जीवने उत्पत्तेः अनन्तरं व्यक्तं व्यक्तमध्यानि मरणात् प्राक् अपि व्यक्तमध्यानि परन्तु मरणात् अनन्तरं किं भवति अव्यक्तमेव मरणात् अनन्तरम् अदर्शनमेव हा इत्युक्ते आदौ आदौ जीवनस्य प्राक् अदर्शनम् अनन्तरं जीवनं जीवनानन्तरं पुनः अदर्शनम् तत्तु भवति एव जन्मनः जन्मः अनन्तरं नाशः नाशात् अनन्तरं जन्म इति कथं चक्रवत् चक्र इति किमर्थम् शोकम् करोति किमर्थम सोच्यताम् इति भगवान् पृच्छति इत्युक्ते परिदेवना लेमेण्टिङ्ग् मा करोतु किमर्थम् Don't feel bad by considering your body. Huh? Attachment, whatever attachment you are feeling in your mind, it is just a illusion. Illusion sort of the Maya, it is the ashti tat. Tatra pashantu sarve, kinchita, krishnata ashti tatra, kimartham pashantu. Gross body, anandaram, subtle body, it is casual body. Gross body, it is the asma ka bhouti ka sarira. भौतिकभौतिक इत्युक्ते पञ्चमहाभूतानि तत्र सन्ति पञ्च महाभूतानि युक्त इति अस्माकं शरीरः पञ्चमहाभूत पृथ्वी आप्तेज्वायु आकाश अनन्तरं तस्मिन् किमस्ति सटल् बोडि इति वदामः सर्वे इन्द्रियाणि सर्वाणि इन्द्रियाणि सन्ति ज्ञानेन्द्रियाणि सन्ति तत्र ज्ञानेन्द्रियाणि इतोपि तत्र ग्रास् बोडि सेटल् बोडि केजुयल् बोडि इति वदामः चेत् इत्युक्ते अस्माकं संस्काराः अस्माकं कर्म कर्मणाः इति तत्सर्वं वि बिलीव् देट् इट् इस् गोयिङ्ग् टु बि केरि फोर्वर्ड् फ्रम् अवर् प्रीवियस् लैफ़् एण्ड् आल् सो देट् इस् आल् वित् अस् मरणस्य समये किं भवति एट् द टैम् आफ़् डेथ् सोल्स् अवर् फिसिकल् बोडि gross body and then departs with the subtle and casual body and again the soul has been placed to according to that casual body subtle body part into another gross body that is jivanam jivanam maranam jivanam maranam okay so that is all parivartana sthiti transitional phase ट्रांजिशनल बिफोर्ट अतः तरीदेवनाट इज जस्ट अ ट्रांजिशन फ्रम वन फेज टू अनदर नो कॉज ऑफ प्लैमेंटिंग भगवा अव्यक्त आदि व्यक्त मध्या भूता अव्यक्तादी सर्वाणी भूता मध्या सर्वाण पुनः अव्यक्तनिधनानि अतः परिवेदना मास्तु तत्र का परिवेदना परिदेवना परिदेवना मास्तु तत् निरर्थकमेव किमर्थं सूच्यताम् इति पृच्छति भगवान् स्पष्टं वा स्पष्टमस्ति तत्र द्वितीये अध्याये तत्सर्वम् अस्ति द्वितीये अध्याये तत् आत्म, uh, आत्मशरीरतत्त्वम् एव आमां तत्र अस्ति किञ्चित् तत्र अस्माकं कृते कदा कदा तत् किं वदामः तत् काठिन्यं दृश्यते तत्र अध्याये एवं खलु जयन्ति भगिनी सत्यं सत्यमेव किञ्चित् ऐ मीन् इण्ट्रेस्ट् न भवति चेत् बोरिङ्ग् अपि औदासीन्यम् अपि आगच्छति खलु इण्ट्रेस्ट् अस्ति चेत् रुचिकरं भवति चेत् बहु सम्यक् अस्ति ज्ञानं प्राप्तुं शक्यते सत्यम् अर्थं न कदा कदा मनसि तत् विषाद अपि आगच्छति औदासिन्यमपि आगच्छति एतत् सर्वं चिन्तित्वा एकैक श्लोकं मनसि दृढतया दृढतया भवति बेनि अर्थं सम्यक् मनसि भवति बेनि भगवद्गीतायां श्लोकम् तथैव अहं वदामि तत् आचरणे आचरणस्य विषयस्य तु चिन्तनमेव न भवति आचरण बहु काठि वर्त है त्र नक्य आचरण एकमें पिदेवना यद पाठ्य शीर्षकूपेण त्र तरीदेवना तरीदेवना शब्द विषय अब पाठ त्र कादेवना अकेश त्र ग्रहण कर अथा सम कथां पश्यामः अतीव सुन्दरा कथा अस्ति अद्यदिनस्य पठामः आगस्ट् महोदय आरम्भं करोति वा मनः दर्पणः एव अस्तु भगिनि पठतु मनः दर्पणः इव दर्पणः इत्युक्ते मिरण् इति कदाचित् श्रीरामः हनुमान् दाभिः पर्वता सुवेलपर्वतशिखरं गतः तत्र दृश्यमानं चन्द्रं दर्शयन् सः सर्वान् अपृच्छत् सुहृदः चन्द्रे या कृष्णवर्णता दृश्यते तस्य कारणं किं स्वस्य स्वस्य चिन्तनस्य hmm. अनुगुणं वदन्तु hmm. भवन्तः इति अत्र ah. रामायणप्रसङ्गे किं दृश्यते रामः अस्ति तत्र हनुमान् दृश्यते अन्ये नरा अुद्धप्रसंगे राम हनुमदादि हनुमत्ती दंडे सह सह ताड़ी हाँ तहगे तृतीया हनुमत्कार सेकार हनुमता हनुमदादि हनुमदादि तत्र तृतीया बहुवचनान्तम् इति रूपं सुवेलपर्वतशिखरं सुवेलपर्वत कुत्र अस्ति कोऽपि जानाति वा कर्णाटकदेशे अस्ति वा अत्र लङ्कानगर्यां लङ्कायाम् अस्ति सुवेलपर्वत युद्ध युद्धप्रसङ्गे तत् पश्यन्तु रामेश्वरम् अनन्तरं तत्र सामुद्रदुनी इति <laughs> अनन्तरम् हा सर्वे तत्र वानराः सुबेलपर्वतसमीपे सम्मिलिताः तत्र किमभवत् रात्रौ रात्रौ तत्र चन्द्रम् दर्शयन् रामप्रभु सर्वान् अपृच्छन् सुहृदः इति सम्बोध्य सुहृदः चंद्रे या कृष्णवर्णता दृश्यते तस्य कारणं किम् चन्द्र तत्र कृष्णवर्ण तत्र मध्ये मध्ये तत्र कृष्णवर्णं दृश्यते खलु कृष्णवर्ण तत् <tcm1> चन्द्रे सप्तमी या कृष्णवर्णता दृश्यते तस्य कारणं किं स्वस्य स्वस्य चिन्तनस्य अनुगुणं वदन्तु भवन्तः किं चिन्तनम् इदानीं तत्र एकः दृश्य तत्र पश्यतु दृश्ये तत्र दृश्यं पश्यामः चेत् चन्द्रमस् चन्द्रमा चन्द्रमा तत्र तस्य उपरि तत्र कृष्णवर्णाङ्कित केचन चिह्नाः दृश्यन्ति तत् कारणं किं भवेत् इति सर्वं वदन्तु स्वस्य स्वस्य चिन्तनं वदन्तु इति चिन्तनस्य अनुगुणम् अकार्डिङ्ग्लि इति वदन्तु भवन्तः इति सः पृष्टम् इदानीम् एकस्य एकस्य चिन्तनं किमस्ति तत् पश्यामः हा धन्यवादः अवोष्टमहोदय अम्बिकापति महोदय अग्रिमे पठति वा सुग्रीवः तु राजा तत्र आरभ्य धन्यवादः राजा सर्वत्र सः राज्यस्य अंशम् एव पश्यति अतः सः अवदत् छाया एव दृश्यते तत्र इति अधुना वदतु स्वशब्दैः सुग्रीवस् इण्डि किङ्ग् सुग्रीवसः राजस्य अंशम् एव पश्यति कियत् पीचर् the kingdom अतः सः अवदत् पृथिव्याः छायाः एव दृश्यते तत्र इति शाडो आफ् अर्थ पृथिव्याःडो्याः अत्र पश्यन्तु सुग्रीवः इति नृपः महीपति मही इत्युक्ते मही पृथ्वीये पृथ्वीपती भूमिपति महीपति एतत् सर्वं तत्र भूमौ एव तस्य रुचिः अतः सः किम् उक्तवान् छाया एव दृश्यते यत् कृष्णवर्णं तत्र दृश्यते तत् कृष्णवर्णस्य कारणं किं पृथिव्याः छाया पृथिव्याः षष्ठ्यन्तरूपं पृथिव्याः छाया तस्मात् कारणात् तत्र कृष्णवर्णं दृश्यते इति सः उक्तवान् सः अतः तथैव सः चिन्तितवान् स्वस्य स्वस्य चिन्तनस्य अनुगुणम् वदन्तु दृश्यं तु एकमेव अस्ति परन्तु पश्यन्तु भिन्नभिन्नप्रकारेण सर्वे पश्यन्तु वदन्तु इति रामप्रभु उक्तवान् आसीत् सुग्रीव राजा पृथ्वीपति मयिपति पृथिव्यः इति उक्तवान् अग्रिमे अपि पठतु अम्बिकापतिमहोदय अग्रजा प्राप्य राज्यात् निर्गतः विभीषणः अवदत् रा राहोः पादप्रहरणस्य चिह्नं तत्र दृश्यते इति hmm. अग्रजात् प्रहरणं प्राप्य अकार्डिङ्ग् टु दिस् hmm. ...according ब्रदर्स् यङ्ग ब्रदर्स् रिक्वेस्ट् राज्यस्य निर्गतः विभीषणः अवदत् तत्र अग्रज विभीषण विभीषणस्य अग्रजः कः महोदय विभीषणस्य रावणः इति रावणः रावणः रावणस्य अनुज अग्रज अस्तु हा सम्यक् सम्यक् तत्र प्रसङ्गः अस्ति खलु तत्र विभीषणः बहुवारम् उक्तवान् सीता सीतां राहोः so राहोः राहो पादप्रहारस्य चिह्नं तत्र पश्यति दृश्य राहु इति राहु इति पापग्रहः इति अस्माकं शास्त्रे अस्ति तत् राहु इति पापग्रहः राहोः पादप्रहारस्य चिह्नं तत्र दृश्यते यद् कृष्णवर्णं तत्र दृश्यते तत् स्वयं सः एव रावणात् प्रहारं प्राप्तवान् आसीत् खलु हा किम् अभव किम् <laughs> एतत् योग्यं नास्ति सीतापहरणं योग्यं नास्ति तत् प्रतिददाद् प्रतिददातु इति सः अनेकवारम् उक्तवान् अन्तिमतः सः रावणः पादैः तत् तस्य उपरि प्रहारं कृतवान् आसीत् अतः सः तथैव तस्य मनसि चिन्तनं राहोः राहु पापग्रहस्य पादप्रहारस्य चिह्नं तत्र दृश्यते एव्रिबडी इस् रिलेटिङ्ग् टु हिस् ओन् लैफ् ऐडियोलोजीस् तत्र दृश्यमेकमेव चन्द्र तस्य उपरि कृष्णवर्णता परन्तु सुग्रीवचिन्तितवान् तत्र पृथिव्याः छाया विभीषणः चिन्तितवान् तत्र राहोः राहोः पादप्रहारस्य चिह्नम् एवं सर्वम् अधुना अग्रे अग्रे अस्ति अङ्गदः सः किं चिन्तयति पश्यामः राधाभगिनी पठतु धन्यवादः अम्बिकापतिमहोदय सिंहा सिंहासनस्य उत्तराधिकारित्वम् प्राप्तुं योग्य, योग्यतायाम्, सत्याम् mm -hmm. अपि युवराज, युवराजपदमात्रम् प्राप्तवान् अङ्गदः उक्तवान् रत्याः मुखस्य mm -hmm. mm -hmm. निर्माणाय mm -hmm. ब्रह्मा चन्द्रस्य mm -hmm. सारभागं, एव अपनीतवान् uh, अङ्गद् सिंहास uh, uh, सिंहासनस्य उत्तराधिकारित्वं uh, गतवान् अङ्गदः कस्य पुत्रः भगिनि सुग्रीवस्य पुत्रः पुत्र ओके तस्य पुत्रीवस्य अग्रज हा तत्र वास्तविकरूपेण सः एव सिंहासनस्य उत्तराधिकारी इति परन्तु किम् अभवत् वालीवधं तत् जातम् रामबाणेन इदानीं किं सुग्रीवः राजा अभवत् अतः सः युवराजपदं स्वीकृतवान् अतः सः किम् उक्तवान् तत् नृत्यमस्ति किम् उक्तवान् सः रत्याः इत्युक्ते रत्याः इत्युक्ते चारियट् रति न रति रति इत्युक्ते सुन्दरस्त्रीस्त्री ओ रत्याः आ... निर्माणाय ओके ओके OK、रत्याः मुखस्य निर्माणाय ब्रह्मा चन्द्रस्य सारभागम् एव अपनीतवान् चन्द्रमुखी इति सुन्दरी Okay, okay. तत्र ता चन्द्रमुखी कथं भवति चन्द्रस्य सारभागम् एकं स्वीकृत्यं भवति इति चिन्तितम् अतः okay. ततः hmm. जाते रन्ध्रे यः आकाशः दृश्यते सः hmm. एव कृष्णवर्णत्वेन भासते इति सः उक्तवान् hmm. जाते रन्ध्रे अतः तदा अत्र भगिनि आकाश इत्युक्ते व्याक्यूम् अत्र ब्रह्मा किं कृतवान् चन्द्रस्य सारभागं तत्र अपनीतवान् ऋतुमुखं वा चन्द्रमुखी इति सा ललला तत्र चन्द्र तत्र रन्ध्रे यः आकाशः दृश्यते सः एव कृष्णवर्णत्वेन भासते यत्र तत्र व्याक्यूम् क्रियेटेड् लुकिङ्ग् लैक् ब्लेक् होल् इति कृष्णवर्णत्वेन इति तस्य चिन्तनम् आकाश इति व्याक्यूम् रन्ध्रे इत्युक्ते होल् होल् ओके इत्युक्ते अस्माकं तत्र सुग्रीवस्य चिन्तनं विभीषणस्य चिन्तनम् अंगदस्य चिन्तनम् अधुना रामस्य चिन्तनं पश्यामः रामः किं चिन्तयति विना भगिनी पठति वा पठति रामः तु रामः तु प्रियः सहोदरः तप्तः च सः अवदत् विषं चन्द्रस्य भ्राता भ्रातरं स्वहृदये स्थापयति चन्द्रः विषकारणतः एव स्वकिरणै स्वकिरणैः विरहि विरहिजनान् पीडयति चन्द्रः इति ददातु अधुना राम राम तु प्रियसहोदरः कस्य सहोदरः लक्ष्मणसहोदरः वा रामः तु प्रियसहोदरः वियोगदुःखतप्त च रामः सी सीतायाः सीतायोः वियोगदुःखतप्त अस्ति रामः सः अदत् विषं चन्द्रस्य भ्राता चन्द्रस्य भ्राता विषम् किमर्थं भ्रातरं स्वहृदये स्थापयति चन्द्रः अधुना विषं चन्द्रस्य भ्राता विषं हलाहल अधुना अधुना अस्तु भवती जानाति चिन्ता मास्तु पश्यन्तु भगिनी चन्द्रः तत्र चन्द्रः कुत्र दृश्यते कस्य भालप्रदेशे दृश्यते भालप्रदेशे फोर्हेड् उपरि कस्य शिवस्य बालप्रदेशे चन्द्रमा दृश्यते अधुना शिवस्य शिवस्य रूपं चिन्तयतु तत्र विषं हलाहलः हला कुत्र दृश्यते कण्ठे शिवस्य कण्ठे विषं शिवस्य बालप्रदेशे चन्द्रः इत्युक्ते चन्द्रः विषम् न्द्रस्य भ्राता okay. Okay. <laughs> अधुना विषम् एव चन्द्रस्य भ्राता तं विषं चन्द्रः स्वहृदये स्थापयति अधुना चिन्तनं कथमस्ति अहम् अन्यतरस्य अन्यतरचिन्तनं कृतवती अमृतमपि समुद्रेण उद्भत्ति भवति विष थनस्य समये तथैव तथापि भवितुमर्हति सत्यं सत्यं समुद्रमन्थनस्य समये विषम् अपि उद्धृतं तथैव चन्द्रस्य अपि तत्र उद्धारणं तत् तथैव अभवत् अतः विषं चन्द्रस्य भ्राता तत्ता तादृशं चिन्तनमपि सम्यक् अस्ति इदानीं सः वदति भ्रातरं स्वहृदये स्थापयति चन्द्रः रामः तु प्रियसहोदरः कस्य लक्ष्मणस्य प्रियसहोदरः तत्र प्रियसहोदरः इत्युक्ते भ्रातारं राम अपि स्वहृदये स्थापयति अतः रामपि तादृशं चिन्तनं करोति यथा अहं भ्रातारं स्वहृदये स्थापयामि तथैव चन्द्र अपि तस्य भ्रातारं स्वहृदये स्थापयति विषं स्वद्वयं स्थापयति अधुना तत्र हृदये एक विषमस्ति विषकारणतः एव स्वकिरणैः विरहिजनान् पीडयति चन्द्रः तत्र यत् कृष्णवर्णत्वं दृश्यते तत् विषकारण वीष वीष वीषं तत्र, वीश, वीश, तत्र सम्मिलितं कुत्र स्वकिरणान् तत्र स्वकिरणेषु स्वा, विषमपि सम्मिलितम् तेन विरयीजनान् पीडयति चन्द्रः स्वयं रामः अनुभवं करोति सीतावियोगदुःखस्य तथैव विरह पीडा सः अनुभवति अतः तथैव तस्य चिन्तनं भवति ह अधुना सुग्रीवस्य चिन्तनं तत्तु अभवत् विभीषणस्य चिन्तनं सुग्रीवस्य चिन्तनं महीपति सः अतः ता तादृशं पृथिव्याः छाया इति उक्तवान् विभीषण पादप्रहरणस्य स्मरणं तस्य मनसि आग आगतम् अतः तत् ता, तथैव ता, उक्तवान् अङ्गदः रतिमुख चन्द्रमुखी रति यत् अस्ति सौन्दर्यवृद्धेः कारणात् तत्र एव भागं स्वीकृत्य ब्रह्म तत् क्रिय कृतं दृश्यते अतः तत्र विवरं दृश्यते रन्ध्रं दृश्यते रामस्य मनसि भ्रातृप्रेमः वियोगदुःख अपि भार्यायाः मनसि अस्ति अतः तथैव सः अधुना कः शेषः कः शेषः हनुमतः चिन्तनम् पठतु जयन्तीभगिनी पठतु आञ्जनेयः तु रामभक्तः सर्वत्र रामम् एव पश्यति सः सः अवदत् चन्द्रः भवतः प्रियदासः भवती भवदीयां श्याम श्यामलमूर्तिं स्वहृदये धरति सः इति अद्भुतं वेदि आञ्जनेय वदति आञ्जनेयः तु रामभक्तः एव mm. तावदेव चन्द्रमा अपि रामभक्तः दासः रामस्य दासः mm. अतः चन्द्रमा चन्द्रः सर्वदा भवतस्य श्यामरूपं श्यामल श्यामरूपम् एव मनसि स्थापयति अतः भवतः प्रियदासः भवदीयां श्यामलमूर्तिं सुहृदये धरति सः चन्द्रमा चन्द्रमा इति उक्तवान् कृष्णवर्णस्य कारणं किम् <laughs> भगवतः श्यामलमूर्तिं स्वहृदये स्थापयति सदा सर्वदा स्वहृदये तस्य स्वहृदये कृष्णवर्णशामलमूर्तिः अस्ति अतः तत्र कृष्णवर्णं दृश्यते इति अस्ति दास्यभक्तेः दास्य तत्र नवविधा भक्तिः अस्ति खलु श्रवणं कीर्तनं प्रह्लादः श्रवणं कीर्तनं नवविधा भक्ति mm -hmm. तत्र दास्यभक्ति दास्यभक्तेः सर्वोत्कृष्टम् उदाहरणम् इति हनुमान् सः mm अपि -hmm. तथैव चिन्तयति चन्द्रः तु mm -hmm. भवतः दासः एव mm -hmm. इत्युक्ते रामप्रभो तस्य महिमा चन्द्रः अपि तस्य दासः इति सः चिन्तयति अतः सह भवन्तम् एव हृदये धरति अतः तत्र कृष्णमर्हतु अधुना अग्रिमे लक्ष्मीभगिनी पठतु अग्रिमम् अन्तिमम् अत्र पठति वा लक्ष्मी पडिङ्गीनिङ्ग् तर्ति पर्वालेवा अत्र चन्द्रः अस्माकं मनः इव अन्तः अन्तःकरणभावस्य अन्तःकरण अन्तःकरणभावस्य अनुगुणं वयं तर्पणार्थ दर्पणरूपे mm -hmm. अन्येषाम् आकारम् पश्याम दृष्टचिन्तनं यस्य भवति सः सर्वत्र दृष्ट द्रिस्ट, दृष्टान् एव पश्यति दुर्यो दुर्यो दुर्योधनः दुर्योधनः इव सञ्जितान् सञ्जि सञ्चितान् यस्य मनसि भवति बाव, सः तु धर्मराजः इव सर्वत, सर्वत्र सञ्जनान् एव पश्यति सज्जना सज्जनान् एव पश्य सज्जनान् एव अत्र पश्यन्तु अत्र शब्दस्य योजना सर्वत्र शब्दस्य योजना अत्र चन्द्रः अस्माकं मनः इव चन्द्रः अस्माकं मनः इव इत्युक्ते कोपि वक्तुं शक्नोति चन्द्रः अस्माकं मनः इव इत्युक्ते चन्द्रतादृशम् अस्माकं मनः इति न्द्रमानसस्य ऐ मीन् करोति खलु प्रतीकात्मकरूपेण सः एव प्रतीकरूपेण आगच्छति तत्र प्रतीकात्मकरूपेण सः इत्युक्ते पश्यन्तु वयम् अस्माकं यत् चिन्तनमस्ति तस्य गुणानुसारेण वयम् आरोपणं कुर्मः यदा मम मनसि सदा सर्वदा लोभः द्वेषः मत्सरः इति रि, रिपवः रिपो रिपवः यदा सन्ति चेत् तेषां गुणानाम् आरोपणम् अहं करोमि यदा यदा गच्छामि तथैव चिन्तयामि यदा मनसि सर्वे सद्गुणाः सन्ति चेत् तथैव गुणानाम् आरोपणं सर्वत्र करोमि अत्र उदाहरणं किं दत्तमस्ति दुर्योधनस्य धर्मराजस्य दुर्योधनधर्मराज कः भेदः चिन्तने दुर्योधनः सर्वत्र दुष्टान्येव पश्यति अतः तस्य मनसि सत्स्वभावं नास्ति धर्मराजः सर्वत्र सज्जनान्येव पश्यति अतः सः सज्जनान् एव स सर्वे सर्वत्र पश्यन् पश्यन्ति अत्र एका कथा प्रचलिता आसीत् तत्र दुर्योधन कोऽपि तम् उक्तवान् तत् सज्जनान् सज्जनमनुष्यम् आनयतु सः उक्तवान् तत्र कोऽपि न दृश्यते हस्तिनापुरे कोऽपि न दृश्यते इति सः उक्तवान् परन्तु धर्मराजस्य किं चिन्तनम् तत् दुर्जन सज्जनयतु नो सर्वत्र सज्जनाः एव सन्ति दुर्जनमनुष्यः एव नास्ति इति सः उक्तवान् हा अन्तःकरणभावस्य अनुगुणं वयं दर्पणरूपे मनसि अन्येषाम् आकारं पश्यामः मन कथायाः नाम किं मनः दर्पणः इव हा मनः दर्पणः दर्पणे किं भवति दर्पणे वयं किं पश्यामः प्रतिबिम्बम् अस्ति प्रतिबिंब तथ मनसी, दर्पन रूपे, मनसी दर्पन रूपे मनसी किर्पणूपे मन, मनसी अत भाव वयम पशा मम अक सभा सी चे तथा मन मम मनसी सद्भान अहम एव, एव प्राकट्यं अहम क्या अन्तःकरणभावस्य अन्तःकरणभावस्य मन मनसि ये भावाः सन्ति अनुगुणम् अनु, अनु इति उपसर्ग अनुगुणम् अकार्डिङ्ग्लि वयं दर्पणरूपे मनसि अन्येषाम् आकारम् पश्यामः दुष्टचिन्तनं यस्य भवति सः सर्वत्र दुष्टान् एव पश्यति दुष्टचिन्तनम् सम्यक् चिन्तनं नास्ति सः एज पर चिंतन तरह चिंतन असृत्य सर सर्वष्ट पश्य दुर्योधन इव दुर्योधन से उदाहज्जन कोपी नव उन्ना तर दुर्योधन से बहु प्रसिद तक्यमस्मी धर्म न च मे प्रवृत्ति जानामि अधर्मः न च मे निवृत्ति अहम् अधर्म धर्मस्य विषये सम्यक् जानामि अहं धर्म इत्युक्ते किम् एतदपि जानामि परन्तु तत् मम प्रवृत्ति मम स्वभाव एव नास्य धर्मस्य आचरणं करणीयम् अधर्म किम् तदपि अहं जानामि अधर्मस्य विषये अहं सम्यक् जानामि परन्तु तत् मम तस्मिन् विषये मनसि निवृत्तिभावना न निवृत्ति इत्युक्ते अधर्मस्य त्यजनं धर्मस्य स्वीकरणं करणीयम् इति मम प्रवृत्ति एव नास्ति स्वभाव एव नास्ति स्वभाव स्वस्य भाव अन्तःकरणस्य भाव तत्र स्वभाव इत्युक्ते स्व अतः तत्र प्रश्नः किमस्ति स्वस्य स्वस्य चिन्तनस्य अनुगुणं वदन्तु यथा चिन्तनं तथा विचारः तथैव वक्तव्यं भवति दुष्टचिन्तनम् दुष्टाव पश्य दुर्योधन से आचरण अभी तत्ता प्रकटय दुर्योधन दुर्योधन से आचरण की दुष्टतापूर्ण तथा तित यन तकार से चकार तत्व अस्टे सत् सत असत् सोग्य पुण्यकारक चिंतन य सः किम् करोति धर्मराज इव सर्वत्र सज्जनान् एव पश्यति मनसि सच्चिन्तनम् सज्जनान् एव पश्यति मनसि दुष्टचिन्तनम् दुष्टान् एव पश्यति अतः कथायाः नाम मनः दर्पणः इव इति स्पष्टमस्ति वा अधुना कथायाः विषये वदन्तु सर्वे वाक्यानि अर्थबोध इति कथायाम् एकमेव वाक्यं वदामि बेनि यद् यद्भावं तद् भवति इति मनसि यद्भावंसि तत्र hmm. पश्यतु एकं स्मरामि न काष्ठे विद्यते देव न न मृण्मये भावो हि विद्यते देव, तस्मान भावो हि कारणम् इति mm -hmm. अस्ति तथैव भावम् mm -hmm. सम्यक् वीणाभगिनी राधाभगिनी सर्वे वदन्तु अगस्तुमहोदय कथायाः विषये अम्बिकापतिमहोदय वाक्यद्वयं mm -hmm. वदतु कुर्वेत् सः निश्चयेन मोक्षं प्राप्नोति सत्यं गीतायाः वचनमेव तत् उत्तमम् उत्तमं तथैव सत्कर्माणि कथं कदा भविष्यन्ति यदा मनसि शुद्धता सद्भावना भवेत् तथैव उत्तमम् उत्तमं महोदय अवश्यं महोदय वदतु Uh, um um like this um i think that the our our their personality that uh that depends um uh, on the vasanas that we mm. cultivate that that mm. was the uh, what when i understood the general meaning of this diktata सत्य सत्य अस्माक व्यक्तिम पर्सनालिटी व्यक्तिम कथम होती मनसी ये ये विचारा आग्छा तदुपरी अस्कं चिंतन से उपरी अस्कंधारक आचरण होती है सम्यक् योग्यं योग्यं जयन्तीभगिनी उक्तवती राधाभगिनी वीणा भगिनी वदति वा राधाभगिनी वदतु आं मम मनसि किम् अस्ति ते एव अहं दृश्यते अहं पश्यामि पश्यामि अहं पश्यामि यदा दृश्यते प्रयोगः भवेत् तत् तथैव मया दृश्यते इति कर्मणि प्रयत्ते ओके तथैव मया दृश्यते तथैव अहं चिन्तयामि वदामि मम स्वभावः अपि एव तत् भवति तत तत् प्रकारेण भवति तत्कारणं मम मनसः दर्पण एव अस्ति सत्यं सत्यं और पण कहला मन हि देवता मन हि कारण मनसि बनानुकूल एव अस्तु धन्यवादः भवती वदति वा इदं एकं श्लोकं द्वितीय अध्याये श्लोकं वदति क्रोधात् भवति सम्मोहः स्मृतिविभ्रमः स्मृतिघंशात् बुद्धिनाशः बुद्धिनाशात् अस्माकं बुद्धिः सः गुड् गुड् थाट्स् वि Otherwise, we mm. We we we allow this mm. to... Yeah. Sadyam, sadyam. to to to Satyam, Satyam, Satyam. have have think think right, we have to try to think only the good good so that we mm. can also do सम्यक् सत्यमेव बहु सम्यक् तथैव अतः बाल्यकाले अहं स्मरामि माता सर्वेषां गृहे तदस्ति शुभं वदतु इति तत्र सायङ्काले वा काले नामस्मरणं वा देवताः तथास्तु इति अतः शुभम् एव वदतु मङ्गलवाक्यानि एव वदतु इति सत्यं सत्यं तत् अर्थ अर्थमेव मनः एव आत्मानां बन्धमोक्षणात् कारण कारणभूतः भवति सत्यं hmm. सत्यम् उत्तमम् उत्तमम् उत्तमम् उत्तमं सर्वेषाम् उत्तमाः विचाराः अस्तु अधुना समयः नास्ति तत्र अस्माकम् एषः पाठः तु तत्र समाप्तिमभवत् तस्य पृष्ठक्रमाङ्क विंशति तत्रकापरिदेवना तत्र तत्रकापरिदेवना श्लोकस्य विषये अपि वयं दृष्टवन्तः अनन्तरं तत् श्लोकस्य विषये अनन्तरं कथायाः विषये अपि वयं दृष्टवन्तः तत्र अत्र कुत्र अन्यत्र सर्वत्र एकत्र तस्य अहं मन्ये सर्वेषां मनसि सम्यक् अर्थबोधः अस्ति इति स्पष्टता अस्ति इति अहं मन्ये अस्तु सम्यगस्ति अस्माकं वार्ता वर्गः तु सम्यक् अस्ति सत्यं सत्यम् अहमपि सन्तोषम् अनुभवामि या अनुभवामि तत्र तत्र व्याकरणवर्गः अस्ति अनन्तरं संस्कृत मम शालायां तु तत्र अन्ये विषयाः अपि सन्ति परन्तु तत्र अस्माकम् एषः वर्गः तस्य व्यापकता अहम् अनुभवामि तत्र बहु सम्यक्रीत्या भवति अस्माकं वर्गे बेनि भवत्याः ध्वनिः किञ्चित् ब्रेक् भवति भवती बेनि न श्रूयते वा ना ना अधुना अधुना श्रूयते वा इदानीं न श्रूयते अधुना वदतु अतते हाँ ती अक वर्ग बहु सम्यक प्रकारेण प्रचल तत्र व्यापकता तत्र एकम एव त्रकम स्वीकृत पठाम एवं नी विवध अंग पढ़ा बवत सर्े सर्े जानती बहुकमी सर्वे, सर्वे मपी, तस्य योजना सर्े कर्गे अत तोषा मनसी नहीं? उत्तमम् उत्तमं सर्वेषाः क्रमं पाठनक्रमं भवत्याः कैण्ड्नेस् आल् मेटर्स् टु अस् अस्तु समापयाम धन्यवादाः अम्बिकापतिमहोदय शान्तिमन्त्रेण समापयति वा पूर्णमध पूर्णमिदं पूर्ण पूर्णमुगच्छते पूर्णस्य पूर्णमाधाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ओं तत्सदे श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः हरि ओम् धन्यवादः